मार्कण्डेय पुराणम् अध्यायम् हण्ड्रड् अण्ड् तर्टि त्रि वपुष्मद्वधवर्णनं मार्कण्डेय उवाच इति प्रतिज्ञाय तदा नरिष्यन्दसुदोदमः कोपामर्श विवृत्ताक्षस्मश्रुमावृत्यपाणिना हाहदोऽस्मीति पितरम् ध्यात्वा देवं विनिन्द्य च प्रोवाच मन्त्रिणः सर्वा ज्ञानिनाय पुरोहितं दम उवाच यदत्र कृत्यं तद्ब्रूद तादे प्राप्ते सुरालयं श्रुतं भवद्भिर्यत्प्रोक्तं तेन शूद्रतपस्विना वृद्धस्तपस्वी स न प्रस्तव्रदे स्थितः मौनव्रतधरोशस्त्रो मन्मात्राच्चेन्द्रसेनया प्रोक्तं संसृष्टया स्वात्म्या द्याधात्तध्यं वपुष्मदे तेनापि खड्गमागृह्य जडां सव्येन पाणिना धृत्वा जखानदुष्टात्मा लोकनाथमनाथवद माता च संदिश्य हि मां धिक्शब्दं ब्रुवदी सति मन्दभाग्यं च निःश्रीकं प्रविष्टा हव्यवाहनं तमालिङ्ग्यनरिष्यन्तं प्रयातात्रिदशालयम् सोऽहमद्यकरिष्यामि यन्मे माधुरुदीरितं हस्त्यश्वरथपादादं सैन्यं च परिकल्प्यताम् अनिर्याप्यपितुर्वैरमहत्वा अकृत्वाच अकृत्वा च वचो माधुर्जीवितुं किमिहोत्सहे मार्कण्डेय उवाच मन्त्रिणस्तद्वच श्रुत्वा आहेत्युक्त्वा तथा च तत् कृतवन्तो विमनससभृत्य बलवाहनाः निर्ययुः सपरिवाराः पुरस्कृत्य दमं नृपं गृहीत्वा चाशिषो विप्रातृकालच्जात्पुरोधसः अहिराडिव निश्वस्य दमः याद्वपुष्मदं सीमापालादिसामन्तान्निघ्न्याम्यां दिशत्वरा निरीक्ष्यतं वपुष्मान् वपुष्मान्मर्षपूरितः सङ्क्रन्तनसुतेनापि दमो ज्ञातो वपुष्मदा आयात सपरिवार सपरिवारस्सामात्य सपरिच्छतः अकंपितेन मनसा ससैन्यानि दिदेशः दूतं च प्रशयामास निर्गम्य नगरात् बहिः त्वं शीघ्रतरमागच्छ नरिष्यन्धः प्रदीक्षते सभार्यक्षत्रबन्धो त्वं समायाहि ममान्तिकम् इमे मद्बाहुनिर्मुक्ताशिदा बाणाः पिपासि ताः भित्त्वा शरीरं सङ्ग्रामे पास्यन्ति रुधिरं तव श्रुत्वा दमस्तु तत्सर्वं दूधप्रोक्तं व्ययौत्वरन् मृत्वा प्रतिज्ञां पूर्वोक्तां निःश्वसमुरगो यथा आहुदसमरे चैव पुमान् सेनाविकद्धनः ततो युद्धमदिवासीद्धमस्य च वपुष्मतः रथी च रथिना नागी नागिना हैनाहै अयुध्यन्तज विप्रर्षे तद्युद्धं तु मूलं ह्यभूद पश्यतां सर्वदेवानां सिद्धगन्धर्वरक्षसां चकम्बे वसुधा ब्रह्मन्युध्यमाने दमेयुधिन गजो न रथी नाश्वस्तस्य बाणसहस्तु यः तदो दमेन युयुधे देनाध्यक्षो वपुष्मदः हृदि विव्याधमयिषुणागाद्यमान्तिकं तस्मिन्निपतिते सैन्यं पलायनपरं सैन्यं स स्वामिनं सस्वामिनं प्राह दमशत्रुं दमस्तथा क्वयासि यासि दुष्टपितरं खादयित्वा तपस्विनं अशस्त्रं च तपस्यन्तं क्षत्रियोऽसि निवर्तदां तदो निवृत्य सदमं योधयामास सानुजः सपुत्र सह सम्बन्धिबान्धवैर्युयुधेरधि ततः सना मुक्तबाण्तादो दिशा दम चरदम चाशु शरजरपूरयत तद पिधुवधन कोपे न सदम तथा सांश्चरांस्तेषां विव्याधान्यैश्च तानपि एकेनैकेन बाणेन सप्त पुत्रांस्तथा द्विज सम्बन्धिबान्धवान् मित्रान्निनाय यमसादनं वपुष्मान् सरथि क्रोधान्निहतात्मजबान्धवः युयुधे च स तेनाजौ शरैराशीविशोपमैः चिच्छेद तस्य तान् बाणान् सदमश्च महामुने युयुधादे च संरब्धौ परस्परजयैषिणौ परस्परशराखादविच्छिन्नधनुषौ त्वरा गृहीद खड्गुत्ती चिक्रीड़ा महाबलव। महाबलौ दम क्षण नृपम ध्या पितरम निखद वने केकष्य चाक्रम्य निपातरणीतले शिरोधराया पाद न भुजमुद्यम्य चाब्रवीद पश्यन्तु देवता सर्वा मानुषाः फनगाःखगाः पाठ्यमानं च हृदयं क्षत्रबन्धोर्वपुष्मदः एवमुक्त्वा च सदमोहृदयं च व्यधारयत् दा। पादुकामश्च ससुरैः क्षतजेन निवारितः ततश्चकारतादस्य रक्रे नैवोदकक्रियाम् आनृण्यं प्राप्य स पितुः पुनः वपुष्मतश्च मांसेन पिण्डदानं चकारः ब्राह्मणान् धोजयामास रक्षकुलसमुद्भवान् विधाहि राजानो बभूवु सूर्यवंशजाः अन्येऽपि सुधियशुरा यज्विनो धर्मकोविदाः वेदान्तपारगास्ताञ्च न सङ्ख्यादुमिहोत्सहे एतेषां चरितं श्रुत्वा नरः पापैः प्रमुच्यते वापुष्मद्वधो नाम यीमार्कंडेयपुराणे शततमो वपुषमदो नामशदिककशतमोध्याय